महावाक्यरत्नावले दशमं प्रकरणं पञ्चाशत् अथ सार्धान्तिकसमाधिवाक्यानि जीवात्मपरमात्मैक्यावस्था त्रिपुटिरहिता परमानन्दस्वरूपा शुद्धचैतन्यात्मिका समाधिः ध्यातृध्याने विहाय निवातस्थितदीपवध्येयैकगोचरम् चित्तं समाधिः मनः प्रचारशून्यम् परमात्मने लीनम् भवति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदिसंस्थिते देहे लब्धशान्तिपदम् गते तदा प्रभामनो बुद्धिशून्यम् भवति प्राणापानयोरैक्यम् कृत्वा द्रुतकुम्भको नासाग्रदर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखीकरणेन प्रणवध्वनिं निशम्य मनस्तत्र भवति पयश्रवानन्तरं धेनुस्तनमि क्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे मनोनाशं भवति यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न विचेष्टते तामाहुः परमाम् संशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः जागृन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा मारुते मद्यसञ्चारे मनःस्थैर्यं प्रजायते यो मनः सुस्थिरे सैवावस्था मनोन्मने रूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते निद्राघरूपनाशस्तु वर्तते देहमुक्तिके चित्ते चैत्यदशाहीने या स्थितिः क्षीण चेतसाम् जागृत्येव सुषुप्तता नैतज्जाग्रन्न च स्वप्नः सङ्कल्पानामभावना सुषुप्तभावो नाप्येतद्दभावाज्जडसास्थितेः सत्त्वावबोध एवासौ वासुनातृणपावकः प्रोक्तः समाधिशब्देन न तु तूष्णीम् अवस्थितिः निर्विकारतया वृत्या ब्रह्माकारतया पुनः वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते दृश्यासम्भवबोधेन रागद्वेषादितानवे वृतिर्वलोदिता या सा समाधिरभिधीयते अहमेव परं ब्रह्म ब्रह्माहमितिः संस्थितिः समाधिः सतो विज्ञेयः सर्ववृत्तिनिरोधकः समाधिः संविदुत्पत्तिः परजीवैकताम् ध्यानस्य विस्मृतिः सम्यक् समाधिरभिधीयते समाहिता नित्यतृप्ता यथाभूतार्थदर्शिने ब्रह्मन् समाधिशब्देन परा प्रज्ञोच्यते बुधैः अक्षुब्धा निरहङ्कारा द्वन्द्वेश्वननुपातिने ब्रह्मन् समाधिशब्देन मेरोऽस्थिरतरा स्थितिः निश्चित्ता विगताभीष्टा हेयोपादेयवर्जिता ब्रह्मन् समाधिशब्देन परिपूर्णमनोगतिः सलिले सैन्धवम् यद्वत् साम्यम् भजति यो गतः तथात्ममनसोरैक्यं समाधिरभिधीयते यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः समस्तनष्टसङ्कल्पः समाधिरभिधीयते प्रभाशून्यम् मनःशून्यम् बुद्धिशून्यं निरामयम् सर्वशून्यं निराभासं समाधिरभिधीयते ब्रह्माकारमनोवृत्तिप्रवाहोऽहङ्कृतिं विना सम्प्रज्ञातसमाधि स्याध्यानाभ्यासप्रकर्षतः प्रशान्तवृत्तिकं चित्तं परमानन्ददीपकम् असम्प्रज्ञातनामायम् समाधिर्योगिनाम् प्रियः स्वानुभूतिरसावेशादृश्यशब्दाबुपेक्षितुः निर्विकल्पसमाधिः स्यान्निवातस्तुतदीपवत् प्रभाशून्यम् मनःशून्यम् बुद्धिशून्यम् चिदात्मकम् अन्तर्व्यावृत्तिरूपोऽसौ समाधिर्मनिभावितः ऊर्ध्वपूर्णमधःपूर्णं मद्यपूर्णं शुभात्मकम् साक्षाद्विधिमुखो येषु समाधिः परमार्थिकः इति सार्धान्तिकसमाधिवाक्यानि पञ्चाशत् दशमं प्रकरणं समाप्तम्